ष्टनवतितमः सर्गः निहते महापार्श्वो महाबलः सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः अङ्गदस्य च मूम् भीमाम् क्षोभयामास मार्गणैः स वा नराणाम् मुख्यानामुत्तमाङ्गा निराक्षसः फलम् वृन्तादिवानिलः केषाञ्चिदिषुभिर्बाहूंश्चिच्छेदाथस राक्षसः वानराणाम् सुसंरब्धः पार्श्वम् केषाञ्चिदाक्षिपत् तेर्दिता बाणवर्षेण महापार्श्वेण वानराः निशादविमुखाः सर्वे आयसम् परिघम् गृह्य सूर्यरश्मि समप्रभम् समरेवानरः श्रेष्ठो महापार्श्वेऽन्यपातयत् स तु तेन प्रहारेण महापार्श्वो विचेतनः स सूतस्यन्दनात् तस्माद् विसञ्ज्ञश्चापतद्भुवि तस्य अर्क्षराजस्तेजस्वी नीलाम् जनचयोपमः निष्पत्य सुमहावीर्य स्वयूथान् मेघसन्निभात् प्रगह्यगिरिशृङ्गाः क्रुद्धः स विपुलाम् शिलाम् अश्वाञ्जघानतरसा बभञ्जस्यन्दनम् च तम् महाबलः महा अङ्गदम् बहुभिर्बाणैर्भूयस्तम् प्रत्यविध्यत जाम्बवन्तम् त्रिभिर्बाणैराजघानस्तनान्तरे वृक्षराजम् गवाक्षम् त्रिजघान बहुभिः गवाक्षम् जाम्बवन्तम् च सदृष्ट्वा शरपीडितौ जग्राह घोरमङ्गदः क्रोधमूर्च्छितः तस्याङ्गदः स रोषाक्षो राक्षसस्यतमायसम् दूरस्थितस्य परिघम् रविरश्मिसमप्रभम् द्वाभ्याम् भुजाभ्याम् सङ्गृह्य भ्रामयित्वा च वेगवत् महापार्श्वस्य चक्षेपवधार्थम् वालिनः स तो क्षि बलवता परघस्त रक्षसा धनुष्च सशर हस्ताच पात सगेन वालीपुत्र प्रतापवालेनाभ्यक्रुद्ध कर्णमूले सकुंडले स्रुद्धो महेगो महापाश्व महाद्युति करेणक जग्राहसुम बरश्वध तम् तैलधौतम् विमलम् शैलसारमयम् दृढम् राक्षसः परमक्रुद्धो वालिपुत्रेण्यपातयत् तेन वामाम् राक्षसस्य स्तनाभ्यासे मर्मज्ञो हृदयम् प्रति इन्द्राशनि समस्पर्शम् समुष्टिम् विन्यपातयत् तेन तस्य निपातेन राक्षसस्य महामृधे पफालहृदयम् चास्य सपपात हतो तस्मिन् विनिहते भूमौ तत्सैन्यम् सम्प्रचुक्षुभे अभवच्च महान् क्रोधः समरे रावणस्य तु वानराणाम् प्रहृष्टानाम् सिंहनादः सु पुष्कलः स्फोटयन्निव शब्देन लङ्काम् साट्टालगोपुराम् सहेन्द्रेणैव देवानाम् नादः महान् अथेन्द्र शत्रुःस्त्रिदशालयानाम् चैव महाप्रणादम् श्रुत्वा सरोषम् युधिराक्षसेन्द्रः पुनश्च त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः